नारदपुराणं पूर्वार्धम् अध्यायं ट्वेण्टि टु शनक उवाच अन्यद्व्रतवरं वक्ष्ये तच्छृणुष्वसमाहितः सर्वापापहरं पुण्यं सर्वलोकोपकारकम् आषाढे श्रावणे वापि तथा भाद्रपदेऽपि च तथैवाश्विनके मासे कुल्यादेद व्रतम् द्विज येदेष्वन्यतमे मासे शुक्लपक्षे जितेन्द्रियः प्राश येत् पञ्चगव्यं च स्वपयेद्विष्णुसमीपदः तदप्रातसमुद्धाय नित्यकर्म समाप्य च श्रद्धया पूजये पूजयेद्विष्णुं वशीक्रोधविवार्जितः विद्वद्भिस्सहितो विष्णुमर्चयित्वा यथोचितं सङ्कल्पं तु तथा कुर्यास्त्वस्ति वाचनपूर्वकं मासमेकं निराहारो ह्यद्यप्रभृति केशव मासान्तं पारणं कुर्वे देव देव देवदेवतवाज्ञया तपोरूप नमस्तुभ्यं तपःसां फलदायक ममाभीष्टप्रदं देहि सर्वविघ्नान्निवारय एवं समर्प्य देवस्य विष्णोर्मासव्रतं शुभं निवसे प्रभृतिमासान्दं निवसेद्धरिमन्दिरे प्रत्यहं स्नापयेद्देवं पञ्चामृतविधानदः दीपं निरन्तरं कुर्यात्तस्मिन् मासे हरेर्गृहे प्रत्यहं खादयेत् काष्ठं ह्यपामार्गसमुद्भवं तद स्नायेद विधिन्नारायणपरायणः तदस्नानपयेद्विष्णुं पूर्ववत्प्रयतोऽर्चयेद् ब्राह्मणान् भोजये चक्रिया भक्तियुक्तसदक्षिणं स्वयं च बन्धुभिः सार्धं भुञ्जीदप्रयतेन्द्रियः एवं मासोपवासांश्च व्रतीकुर्यात् त्रयोदश वर्षान् दे वेदविदुषे गां प्रदद्यात् स दक्षिणां भोजयेत् ब्रह्मणांस्तत्र द्वादशैव विधानदः शक्र्या च दक्षिणां दद्याद् द्रुह्यण्या भरणानि च मासोपवासत्रदयं ह्य कुर्यात्संयदेन्द्रियः आप्तो यामस्य यज्ञस्त्विगुणं फलमश्नुदे चतुः कृत्वकृतं येन पारागं मुनिसतम सलभेत् परमपुण्यमष्टान् गिष्ठोमसम्भवं पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना आत्यङ्गिष्ठोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः मासोपवाष्टकं ह्यकरो दि सुसमाहितः ज्योतिष्टोस्य यज्ञस्य फलं सोऽष्टगुणं लभेद निराहारसप्तकृत्वो नरो मासोपवासकान् अश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेद मासोपवासान्यकुर्यादष्टकृत्वो मुनीश्वर नर मेधाख्य यज्ञस्य फलं पञ्चगुणं लभेद यस्तु मासोपवासांश्च नवकृत्वस्समाचरेद गोमेधमखजं पुण्यं लभते त्रिगुणं नरः दशकृत्वस्तु यः कुर्यात्पराकं मुनिषत्तमा सब्रह्ममेधयज्ञस्य त्रिगुणं फलमश्नुते एकादशपराकांश्च यः कुर्यात् सं यदेन्द्रियः स यादि कलिसारूप्यं सर्वभोगसमन्वितं त्रयोदशपराकांश्च यः कुर्यात् प्रयतो नरः स यादि परमानन्दं यत्र गत्वा न शोचति मासोपवासनिरदा गङ्गास्नानपरायणाः धर्ममार्गप्रवक्तारो मुक्ता एव न संशयः अवीराभिर्यदिभिर्ब्रह्मचारिभिः मासोपवासकर्तव्यो वनस्तैश्च विशेषतः नारी वा पुरुषो वापि व्रतमेतत्सुदुर्लभं कृत्वा मोक्षमवान्पोधि योगिनामपि दुर्लभं गृहस्थो वा नप्रस्थो वा व्रदि वा भिक्षुरेव वा मूर्खो वा पण्डितो वापि श्रुत्वै तन्मोक्षभाग् भवेत् इदं पुण्यं व्रताख्यानं नारायणपरायणः शृणुयाद्वाच ये द्वापि सर्वपापैः प्रमुच्यते इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे वृदाख्याने मासोपवासवर्णनं नाम द्वाविंशोऽध्यायः